नमो भगवते वासुदेवाय अथ दीपमाहात्म्यकथनं नाम चतुर्विंशोऽध्यायः मणिग्रीव उवाच चमत्कारपुरे रम्ये विद्वज्जनसमाकुले मम वासमभवत्तत्र धर्मपत्न्या सह द्विज धनाढ्यस्य पवित्रस्य परोपकृतिशालिनः कदाचिद्दैवयोगेन दुर्बुद्धिः समपद्यत निजधर्मपरित्यागः कृतो मे दुष्टबुद्धिनां परस्त्रीसेवनं नित्यम् अपेयं पीयते स्मः चौर्यहिंसापरश्चाहं परित्यक्तः स्वबन्धुभिः बृहत् भूपेन मद्गृहं लुण्ठितं तदा अवशिष्टं च यत्किञ्चित् गृहीतं बन्धुविर्धनम् एवं तिरस्कृतः सर्वैर्वसमचीकरम् कृत्वा जीववधं नित्यं जीवेयं भार्यया सह एतस्मिन् विपिने घोरे वसतो मे दुरात्मनः कुरुष्वानुग्रहं ब्रह्मन् पापयुक्तस्य साम्प्रतं प्राचीनपुण्यपुञ्जेन संप्राप्तो गहने भवान् तवाहं शरणं यातः सपत्नी को महामुने उपदेशप्रसादेन कृतार्थे कर्तुमर्हसि येन मे तीव्रदारिद्र्यं विलयं याति तत्क्षणात् अतुलं वैभवं लब्ध्वा विचरामि यथा सुखम् उग्रदेव उवाच कृतार्थोसि महाभाग यदातिथ्यं कृतं मम अतस्ते भाविकल्याणं सपत्नीकस्य साम्प्रतं विना व्रतैर्विना तीर्थैर्विना दानैर्यत्नतः दारिद्र्यं ते याति यथा निर्धारितं मया अतः परं तृतीयोऽस्ति मा स्रीपुरुषोत्तमः भवद्भ्यां तत्र विधिना दम्पतीभ्यां प्रयत्नतः कर्तव्यं दीपदानञ्च पुरुषोत्तम तेन ते तीव्रदारिद्र्यं समूलं नाशमेष्यति तिलतैलेन कर्तव्यः सर्पिषा वैभवे सति तयोर्मध्ये न किञ्चित् ते इङ्गुदीजेन तैलेन दीपः कार्यस्त्वया नघ यावन्मासंयमं मणिग्रीवस्त्रिया सह अस्मिन् सरोवरे स्नात्वा सह पत्न्या निरन्तरम् हि कर्तव्यं त्वया वनि अयमेवोपदेशस्तु सपत्नीकायमे कृतः त्वदातिथ्यप्रसन्नेन मया निगमनिश्चितः अवैधं दीपदानं हि रमावृद्धिकरं नृणां चेत् किं पुनः पुरुषोत्तमेना वेदोक्तानि च कर्माणि दानानि विविधानि च पुरुषोत्तमदीपस्य दी कलां नार्हन्ति षोडसीं तीर्थानि सकलान्येव शास्त्राणि सकलानि च पुरुषोत्तमदीपस्य कलां नार्हन्ति षोडसीं योगो ज्ञानं तथा साङ्ख्यं तन्त्राणि सकलान्यपि पुरुषोत्तमदीपस्य कलां नार्हन्ति षोडसीं कृच्छ्रचान्द्रायणादीनि व्रतानि निखिलानि च पुरुषोत्तमदीपस्य कलां नार्हन्ति षोडसीं वेदाभ्यासोगयाश्राद्धं गोमतीतटसेवनं पुरुषोत्तमदीपस्य कलां नार्हन्ति षोडसीं उपरागसहस्राणि व्यतिपातशतानि च पुरुषोत्तम कुर्वादिक्षेत्रवर्याणि दण्डकादिवनानि च पुरुषोत्तमदीम् एतद् गुह्यतमं वत्स नाख्येयं यस्य कस्यचित् पुत्रपौत्रयशस्करं वन्ध्या वन्ध्यत्वशमनम् अवैधव्यकरं स्त्रियाः राज्यदं राज्यभ्रष्टस्य चिन्तितार्थकरं नृणां कन्याविन्देत भर्तारं गुणिनं चिरजीविनं कान्तार्थी लभते कान्तां सुशीलां च विद्यार्थी लभते विद्यां स्वसिद्धिं सिद्धिकामुकः कोशकामो लभेत् कोशं मोक्षार्थी मोक्षमाप्नुयात् विना विधिं विना शास्त्रं यः कुर्यात् पुरुषोत्तमे दीपं तु यत्र कुत्रापि कामितं सर्वमाप्नुयात् किं पुनर्विधिना दीपदानं प्रयत्नतः तस्माद्दीपः प्रकर्तव्यो मासे श्रीपुरुषोत्तमे एतदुक्तं मया तेद्य तीव्रदारिद्र्यनाशनं स्वस्तिते स्तुगमिष्यामि सन्तुष्टः सेवया तव इत्युक्त्वा विप्रवर्योऽसौ प्रयागं सञ्जगामः द्विभुजं मुरलीहस्तम् मनसा श्रीहरिं स्मरन् अनुगतोऽग्रदेवं तं कियन्मासं निजाश्रमात् पुनरावव्रतुर्नत्व दम्पतीहृष्टमानसौ आसाद्य स्वाश्रमं भक्त्या पुरुषोत्तममानसौ निन्यतुर्मासयुगलं द्विजभक्तिपरायणौ गते मासद्वये श्रीमान् आगतः पुरुषोत्तमः तौ तस्मिंश्चक्रतुर्दीपं गुरुभक्तिपरायणौ इङ्गुदीजेन तैन् इङ्गुदीजेन तैलेन वैभवार्थमतन्द्रितौ एवं तयोः कृतवतोर्जगामपुरुषोत्तमः उग्रदेवप्रसादेन विनिर्धूतमनोमलौ कालस्य वशमापन्नौ पुरन्दरपुरीं गतौ तत्रत्यं भोगमासाद्य पृथिव्यां भारताजिरे उग्रदेवप्रसादेन वरं जनुरवापतु। वीरबाहुसुतस्त्वं च चित्रबाहुरिति श्रुतः पूर्वस्मिन् यो मणिग्रीवो यं चन्द्रकला नाम्नि महिषीयाधुना तव सुन्दरीति समाख्यात पुनर्जनुषितेऽङ्गनं पातिव्रत्येन धर्मेण तवाद्याङ्गार्धहारिणी पतिव्रता हिया नारी पतिपुण्यार्धभागिनी कृतेन दीपदानेन मासे श्रीपुरुषोत्तमे इङ्गुदीजेन तैलेन तव राज्यमकण्डकम् किं तिलतैलेन वा पुनः यः करोति वै मासे पुरुषोत्तमदीपस्य फलवेतन्न संशयः किं पुनश्चोपवासाद्यैश्चरतः चित्रबाहुचरितं पुरातनं सन्निरूप्य कलशोद्भवो मुनिः सत्कृतिं समधिगम्य तत्कृताम् अक्षयाशिषमुदीर्य श्रीबृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्मे श्रीनारायण नारदसंवादे दृढधनवोपाख्याने दीपमाहात्म्यकथनं नाम चतुर्विंशोऽध्यायः श्रीपुरुषोत्तमार्पणमस्तु